हरि श्री श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवत महापुराणे प्रथमस्कन्धे द्वितीयोऽध्यायः श्रोवाच धन्योऽहम् अतिभाग्योऽहम् पावितोऽहम् महात्मभिः यत्पृष्टं सुमहत् पुण्यं पुराणं वेद तदहं सम्प्रवक्ष्यामि सर्वश्रुत्यर्थसम्मतम् राष्ट्रं सर्वशास्त्राणाम् अगमानाम् अनुत्तमम् न स्वा तत्पङ्कजम् तुललितम् योगिनां ब्रह्मा दे अपि सेवितं स्तुति परे ध्येयम् इन्द्रि सदा वक्ष्याम्यद्य सवित्तरम् बहुरसं श्रीमत्पुराणोत्तमम् भक्त्या सर्वरसालयं भगवती नाम्ना प्रसिद्धं द्विजा या विद्येत्यभिधीयते श्रुतिपथे शक्ति सदाद्यापराय सर्वज्ञा भवबन्धश्चित्यनिपुणाय सर्वाशये संस्थिताय दुर्नेया सुदुरात्मभिश्च मुनिभिः भी ध्यानास्पदं प्रापिता प्रत्यक्षा भवती हसा भगवती सिद्धि प्रदास्य तदा सृष्ट्वाखिलं जगदिदं च दशस्वरूपम् शक्त्या स्वया त्रिगुणया परिपाति विश्वम् संहृत्य कल्पसमये रमथे तथैका तान् सर्वविश्वजननीं मनसा स्मरामि ब्रह्मासुर्यखिल मे दिति प्रसिद्धम् पौराणिकैश्चि कथितं खलु वेद विद्भिः विष्णोस्तु नाभिकमले किल जन्म तैरुक्तमेव श्रूते नै स स्वतन्त्रे विष्णोस्तु शेषशयने स्वपति काले तन्नाभि पद्ममुकुले खलु जन्म आधारतां किलगतो त्रिसहस्रमौलि सम्बोध्यतां स भगवान् हि कथं एकार्णवस्य सलिलं रसरूपमेव पात्रं विना नै रसस्थितिरस्ति कश्चित् या सर्वभूतविषये किल शक्तिरूपा तां सर्वभूतजननीं चरणं गतोऽस्मि योगनिद्राम्बलिताक्षं विं दृष्ट्वाम्बुजसित अजस्तुष्टावयाम् देवीम् ताम शरणम् गतः तां जात्वा सुगुणां मायाम् मुक्तिदाम् निर्गुणां तथा वक्षे पुराणमखिलम् गृण्वन्तु मुन्मयस्विह पुराणमुत्तमम् पुण्यम् श्रीमद्भागवताभिधम् अष्टादशसहस्राणि श्लोकात् तत्र संस्कृता स्कन्धाद्वादश चैवत्र कृष्णे न वीता त्रिशतम् पूर्णमध्याय अष्टादशयुतास्मृता विंशतिः प्रथम तत्र द्वितीये द्वादशैव तु त्रिंशच्च तृतीये तु चतुर्थे पञ्चविंशति पञ्चशी तथाध्याये पञ्चमे परिकीर्तिता एकत्रिंशत् तथा षष्ठे चत्वारिंशत् सप्तमे अष्टमे तत्त्वसङ्ख्या च तथा त्रयोदश ते सम्प्रोक्तादश मे मुनिना किल तथा च एकादशस्कन्धे चतुर्विंशतिरीरिता चतुर्दशैव चाध्याय द्वादशे मुनिसत्तमह। एवं संख्या समाख्याता पुराणेऽस्मिन् महात्मना अष्टादशस्त्रीया सङ्ख्या च परिकीर्तिता सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि वंशाचित पुराण पंच लक्षण निर्गुणाया सदा नित्या व्यापिका विकृता शिवा योग गम्याखिलाधारा तुत्थि तस् तू सात्वी शक्ति राजमसी तथा महालक्ष्मी सरस्वती महाकालीश्रिया तीसृण शक्तीलक्षण है सृष्ट्यर्थं च समाख्याताय सर्गश्चास्त्रविशारदयि हरिद्रोहिण रुद्राणां समुत्पत्ति तथा स्मृताय पालनोत्पत्तिनाशार्थं प्रतिसर्गः स्मृतोहितः सोमसूर्योद्भवानां च राज्ञां वंशप्रकीर्तिनम् हे अन्यैकक्षिप्पादीनां वंशास्ते परिकीर्तिताय स्वायम्भूमुखानाम् च मनूनाम् परिवर्णनम् कालसङ्ख्या तथा तेषाम् तत्तन्मन्वन्तराणि च तेषाम् वंशानुकथनम् वंशानुचरितम् स्मृतम् पञ्चलक्षणयुक्तानि भवन्ति मुनिसत्तमा सपादलक्षम् च तथा भारतम् मुनिना कृतम् इतिहास इति प्रोक्तम् पञ्चमम् वेदसम्मतम् शौनक उवाच पुराणानि तानि पुराणानि ब्रूहि सूतसविस्तरम् कति सङ्ख्यानि सर्वज्ञशोतुकामा वयन्त्यहे कलिकालविभीतास्मो नैमिश्यण्यवासिनः ब्रह्मणात्र समाविष्टा चक्रम् दत्त्वा मनोमयम् कथितं तेन न सर्वान् गच्छन्ते तस्य पृच्छतः नेमिस्संशीर्यते यत्र स देशः पावनस्मृत कलेस्तत्र प्रवेशो न कदाचित् सम्भविष्यति तावत् तिष्ठन्तु तत्रैव यावत् सत्ययुगं पुनः तच्छ्रुत्वा वचनं तस्य गृहीत्वा तत्कथानकं चालयन् निर्गत पूर्णं सर्वदेशदिदृक्षया प्रेत्यात्र चालयन् चक्रम् नेमि वश्यतः तेनेदम् नेमिषम् प्रोक्तम् क्षेत्रम् परमपावनम् कलिप्रयेषु नैवात्र तस्मात् स्थानम् कृतम् मया मुनेभिः सिद्धसङ्घ च कलिभीतैर्मात्मभिः पशुहीना कृता यज्ञा पुरोडाशादिभिः किल कालातिवाहनम् कार्यम् यावत् भाग्ययोगेन सम्प्राप्तः सूत त्वं चात्र सर्वथा क्वथयाद्य पुराणम् हि पावनम् ब्रह्म सम्मतम् सुतशुश्रूषव सर्वे वक्ता त्वम् मतिमानथ वयम् नूनम् एकचित्ता तथैव च तं सूत भव दीर्घायुतापत्रयविवर्जितः क्वथयाद्य पुराणम् हि पुण्यम् भागवतं शिवम् यत्र धर्मार्थगामानां वर्णनम् विधिपूर्वकम् विद्याम् प्रापत्य मोक्षे कथितो मुनिना किले दैपायनेन मुनिना कथितम् यच्च पावनम् न तृप्यामो वयम् सूत्रे कथाम् श्रुत्वा मनोरमाम् सकलगणगणानामेकपात्रम् गुना पवित्रम् अखिल भुवन मातु नाट्यवद्यद्विचित्रम् निखिलमलगणानां नाशकृत् ना कामकन्दम् प्रकटय भगवत्या नाम पुराणम् इति श्रीमद्देवी भागवते महापुराणे अष्टादशसहस्र्याम् संहितायाम् प्रथमस्कन्धे ग्रन्थसङ्ख्याविषयवर्णनं नाम द्वितीयोऽध्याय श्रीजगदम्बिकायार्पणमस्तु